गरुडपुराणम् आचारकाण्डम् अध्यायम् एयटीन् सूत उवाच गरुडोक्तम् कश्यपाय वक्ष्ये मृत्युञ्जयार्चनम् उद्धारपूर्वकम् पुण्यम् सर्वदेवमयं मदम् सविसर्गम् तृतीयं स्यान्मृत्युदारिद्र्यमरुदनम् ईश विष्णवर्पदेव्यादिकवचम् सर्वसाधनम् अमृतेशम् महामन्त्रम् त्र्यक्षरम् पूजनम् समम् जपनान्मृत्युहीनास्युः सर्वपापविवर्जिताः शदचाप्याद्वेदफलम् यज्ञतीर्थफलम् लभेद अष्टोत्तरशदाप्या त्रिसन्ध्यं मृत्युशत्रुजित ज्यायेच्च सितपद्मस्तं वरदं चाभयं हरे द्वाभ्यां चामृतकुम्भं तु चिन्तयेदमृतेश्वरम् तस्यैवाङ्गगदाम् देवीममृदामृतभाषिणी मुरुदा कलशं दक्षिणे हस्ते वामहस्ते सरोरुहम् जपे दष्टसहस्रम् वै त्रिसन्ध्यम् मासमेकदः जरामृत्युमहा व्याधिशत्रुच्छिवशान्दिदम् आह्वानम् स्थापनम् रोधम् सन्निधानम् निवेशनम् पाद्यमाचमनम् स्नानमर्घ्यम् स्नानमर्ख्यं दीपाम्बरम् भूषणम् च नैवद्यम् पानबीजनम् मात्रा मुद्राजपध्यानम् दक्षिणा चाहुदि स्तुतिः वाद्यम् गद्यम् च नृत्यम् च न्यासयोगम् प्रदक्षिणम् प्रणतिर्मन्द्रशय्या च वन्दनम् च विसर्जनम् षडङ्गादिप्रकारेण पूजनम् दुः परमेशमुखोद्रीतं यो जानादिः स पूजकः आर्ख्यपात्रार्चनं चा दौ वस्त्रेणैव दुताडनं शोधनं कवचेनैव अमृतीकरणं ततः पूजाचाधारशक्त्यादे प्रणायामं तथा सनि पीठशुद्धिम् तदकुल्या चोषणाद्यैस्तद स्मरेद आत्मानम् देवरूपम् च कराङ्गन्यासकं चरेद आत्मानम् पूजयेत् पश्चाद्योतीरूपम् हृदब्जदः मूर्तौ वास्तण्डिले वाभिक्षिपेत् पुष्पम् तु भास्वरम् आह्वानद्वारपूजार्थम् पूजाचाधारचक्रितः सान्निध्यकरणम् देवे परिवारस्य पूजनम् अङ्गषटकस्य पूजा वै कर्तव्या च विपश्चितैः धर्मादयश्च शक्राद्यासायुधापरिवारि परिवारकाः युगवेदमुहूर्ताश्च पूजेयम् भक्रिमुक्तिहृद मातृकाश्च गणांश्चादौ नन्दिगङ्गे च पूजयेद महाकालं च यमनां देहल्यां पूजयेत् पुरा ॐ अमृतेश्वर ॐ भैरवाय नमः एवम् ॐ जुं नमः यैवं शिवाय कृष्णाय ब्रह्मणे च गणाय च चण्डिकायै सरस्वत्यै महा इति आचार महापुराणे आचारकाण्डे मृतेश्च मृत्युञ्जय नामाष्टा नामाष्टादशोऽध्यायः ओम्